श्रीमद्भागवत् महापुराणम् एकादशस्कन्दम् असाष्टादशोऽध्यायः वान् प्रस्थ और् सन्न्यासी के धर्म श्रीभगवानुवाच वनं विवक्षु पुत्रे स्वभार्यां नस्य सहैव वां वन एवावसिच्छान्तस्तृतीयं भागमायुषः कन्दमूलफलैर्वन्यैर्मेध्यैवेद्यं प्रकल्पयेत् वसितवल्कलं वास तृणपर्णादिनानि च केशरोम नखस्मश्रूमलानि बिभ्रया दतः न धावेदप्सु मज्जेत त्रिकालं सण्डिलेशयः ग्रीष्मेतप्येत पञ्चाग्निन्वर्षाश्वासारसार्जले आकण्ठमग्नशिशिरे एवं वृत्तस्तपश्चरेत् अग्निपक्वं समश्नीयात्कालपक्वम् अथापि वा उलूखलात्मकुट्टो वा दन्तो स्वयं सञ्चिनो यात सर्वमात्मनो वृत्तिकारणं देशकालबलाभिज्ञो नादीतान्यदार्थितम् वन्यै शरुपुरोदासैर्निर्वपेत कालचोदितान् न तु श्रोतेन पशुना मां जयेत वनाश्रमे अग्निहोत्रम् च दर्शश्च पूर्णमासश्च चातुर्मास्यानि च चा मुने राम्नातानि च निगमये एवम् चरणेन तपसा मुनिर्धरम् धमनि सन्ततः माम् तपोमयमाराध्य ऋषिलोकादुपैति माम् यस्तेदन् गच्छतश्चम् तपो, यस्ते तपो निशेषंहत कामायाल्पीयसे युज्याद्बालिशकोपरस्ततः यदा सौनि मे कल्पो जर्या जातवेपथो आत्मन्यग्निम् समारोप्य मच्चित्तोऽग्निम् समाविशेत् यदा कर्म विपाकेषु लोकेषु निर्यात्मसु विरागो जायते सम्यग् नस्त्राग्निप्रव्रजेत्तजः इष्ट्वा यथोपदेशम् दत्वा दत्त्वा सर्वस्वमृत्यजेत् अग्निर्न स्वप्राणान् आवेश्य निरपेक्ष परिव्रजेत् विप्रस्य वै सन्निसतो देवादारादिरूपिणः विघ्नान् कुर्वन्त्ययं शस्मान्नाक्रम्य समियात् परम् बिभ्रयाच्चेन्मनिर्वासकोऽपि नाच्छादनं परम् त्यक्तं न दण्डपात्राभ्याम् अन्यत् किञ्चित् नापदे दृष्टिपूतं न वस्त्रपूतं पिबे सत्यपूताम् वदेद्वाचम् मनःपूतम् समाचरेत् मौनानिहान्निलायामादण्डा वाग्देहचेतसाम् नाशेत् यस्य सन्त्यङ्ग वेणुभिर्ना भवेद्यतिः दीक्षां चतुर्षु वर्णेषु जिगर्हान् वर्यश्चरेत् सप्तागारान् सङ्क्लिप्ता तुस्यै लब्धेन तावताम् बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः विभज्य पापितं शेषं भुञ्जीताशेषमाहितम् एकश्च ऋणमहीमेतां निषङ्ग्रियः आत्मक्रीड आत्मरत आत्मवान् समदर्शनः विविक्तक्षेमशरणो मद्भावविमलाशयः आत्मानम् चिन्तयेदेकम् अभेदेन मया मुनिः अन्विक्षेदात्मनो बन्धम् मोक्षम् च ज्ञाननिष्ठयाम् बन्ध इन्द्रियविक्षेपो मोक्षैषाम् च संयमः तस्मान् नियम्य षड्वर्गम् मद्भावेन चरेन्मुनिः विरक्तच्छुल्लकामेभ्यो लब्ध्वाऽऽऽऽऽऽत्मनि सुखम् हत् पुरग्राम व्रजांसार्थान् भिक्षार्थम् प्रभि संश्चरेत् पुण्यदेशसरच्छैलवनाश्रमवतिम् महिम् वारप्रस्थाश्रमपदे स्वभिक्षमाचरेत् संसिद्धित्या स्वसम्मोह सिद्धसत्त्वशिलान्धसा नैतद्वस्तुतया पश्ये दृश्यमानम् विनश्यति असक्तचित्तो विरमेदिहाद्रचिकीर्षिता यदेतदात्मने जगन्मनो वा प्राणसङ्घतम् सर्वम् मायेति तर्केण स्वस्थस्त्यक्त्वा न विरक्तो वा मद्भक्तो वा नपेक्षक षलिङ्गानाश्रमास्त्यक्त्वा चरेद विधिगोचरः बुधो बालकवत् क्रीडेन् कुशलो जडवच्चरेत् वदेन्मत्तवद्विद्वान् गोचार्याम् नैगमश्चरेत् वेदवादरतो न स्यान्नपाखण्डीन हेतुकः शुष्कवादविवादेन कञ्चिन् पक्षम् विवादेन, नोदिरे जना धीरो जनम् चोद्वे जने अतिवादान्त्रितिक्षेत नावमन्येन कञ्चन देहमुद्दिश्य पशुवद्वैरम् कुर्यान्न केनचित् एक एव परोषात्मा भूषे स्वात्मन्यवस्थितः यथेन्दो रुदपात्रेषु च अलब्ध्वा न काले काले सनम् लब्ध्वा नासिद्ध्येन्धृतिमानुभयं देवचन्द्रितम्